अथ चतुर्दशः सर्गः समुहूर्तमिव ध्यात्वा मनसा चाधिगम्यताम् अवप्लुतो महातेजाः प्राकारम् तस्य वेश्मनः स तु प्राकारस्थो महाकपिः पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान। उद्दालकान् राघवृक्षांश्चूताम् कविमुखानपि तथाम् रवणसम्पन्नाल्लताशतसमन्वितान् ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम् सप्रविश्य विचित्रान् विहगैरभिनादिताम् राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृता विहगैर्मृगसङ्घैश्च विचित्राम् चित्रकाननाम् उदितादित्यसङ्काशाम् ददर्श हनुमान् बली वृताम् नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविता प्रहृषमनुजा कालेे मृगपक्षिमदाकुला मतबर्ण संगुष्टा नाजगणा युता मगमाणो वरारोहाजपुत्रीमता सुख प्रसुप्ता हगायामा सनर उत्पतद्भिजगण पक्षर्वात सहता अनेकवर्णा विविधा भी मुमुचुः पुष्पवृष्टयः पुष्पावकीर्णः शुशुभे हनूमान्मारुतात्मजः अशोकवनिका मध्ये यथा पुष्पमयो गिरिः दिशः सर्वाभिधावन्तम् वृक्षखण्डगतम् दृष्ट्वा सर्वाणि भूतानि वसन्त इति निरे वृक्षेभ्यः पतितैः पुष्पैरवकीर्णाः राजवसुधा तत्र प्रमदेव विभूषिता तरस्विनाते ते तरवस्तरसा बहु कम्पिताः कुसुमानि विचित्राणि ससुजुः कपिना तदा निर्धूतपत्रशिखरा शीर्णपुष्पफलद्रुमाः निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः हनूमता वेगवता कम्पितास्तेन गोत्तमाः पुष्पपत्रफलान्याशु मुमुचुः फलशालिनः विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः बभूवुरगमाः सर्वे मारुतेन विनिर्धृताः विधूतकेशी तथा लांगूलस्तस्रणाभ्यार्दिता तथैवाशोकविक्नवन पदप महालता व्यधमत्र साृषि वेगेन मेघजाला मतत्र मणिभूमि राजती मनोरमा तथा कांचन भूमिश्चरंददृशे कप पीश्च विविधाकाराः पूर्णाः परमवारिणा महार्हैर्मणि सोपानैरुपपन्नास्ततस्ततः मुक्ता प्रवालसिकता बुद्धपद्मोत्पलवनाश्चक्रवाकोपशोभिताः नत्यो हरुतसङ्घुष्टा हंससारसनादिताः दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्नतः अमृतोपमतो याभिः शिवाभिरुपसंस्कृताः करवीरकृतान्तराः ततोऽम्बुधर सङ्काशम् प्रवृद्धशिखरम् विचित्रकूटम् कूटैश्च सर्वतः परिवारितम् शिलाग्रहैरवततम् नाना वृक्षसमावृतम् ददर्शकपिशार्दूलो रम्यम् जगति पर्वतम् ददर्श च नगात्तस्मान्नदीयम् निपतिताम् कपिः पतिताम् प्रियाम् जले निपतिताग्रैश्च पादपैरुपशोभिताम् वार्यमाणामिव क्रुद्धाम् प्रमदाम् प्रियबन्धुभिः पुनरावृत्ततोयाम् च ददर्शसमहाकपिः प्रसन्नामिव कान्तस्य कान्ताम् पुनरुपस्थिता तस्या दूरात् स पद्मिन्यो नानाद्विजगणायुताः ददर्शकपिशार्दूलो हनूमान्मारुतात्मजः कृत्रिमाम् दीर्घिकाम् चापि पूर्णाम् शीतेन वारिणा मणिप्रवरसोपानाम् मुक्तासिकतशोभिता विविधैर्मृगसङ्घैश्च विचित्राम् चित्रकाननाम् प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृता येके ये केचित्पादपास्तत्र पुष्पोपगफलोपगाः सच्छत्राः सच्छत्रा सवितर्दीका सर्वे सौवर्णवेदिकाः लता प्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृता बहु काञ्चनीं शिंशपामेकाम् ददर्शसमहाकपिः वृताम् हेममयीभिस्तु वेदिकाभिः समम् ततः सोऽपश्यद्भूमिभागांश्च नगः प्रश्रवणानि च सुवर्णवृक्षानपरान् ददर्श शिखि सन्निभान् तेषाम् द्रुवाणाम् प्रभयामेरोरिव महाकपिः अमन्यत तदा सर्वतः तान् मारुतेन प्रकम्पितान् किङ्किणीशतनिर्घोषान् दृष्ट्वा विस्मयमागमत् सुपुष्पिताग्रान् रुचिराम् स्तरुणाम् कुरपल्लवान् तामारुह्यमहावेगशिम् शपाम् पर्णसंवृता इतो द्रक्ष्यामि वैदेहीम् रामदर्शनलालसा इतश्चेतश्च दुःखार्ताम् सम्पतन्तीम् यदृच्छया अशोकवनिका चेयम् दृढम् रम्या दुरात्मनः चन्दनैश्चम्पकैश्चापि बकुलैश्च विभूषिता इयं चललिनी रम्या द्विजसङ्घनिषेविता इमाम् सा राजमहिषी नूनमेष्यति जानकी सा रामाराजमहिषी राघवस्य प्रिया सती वन ध्रुवमेष्यति जानकी अथवा मृगशावाक्षी वनस्यास्य विचक्षणा वनमेष्यति साध्येह रामचिन्ता सुकर्षिता रामशोकाभिसन्तप्ता सा देवी वामलोचना वनवासरता नित्यमेष्यते वनचारिणी वने चराणाम् सततम् नूनम् स्पृहयते पुरा रामस्य दयिताचार्या जनकस्य सुता सन्ध्याकालमनाश्यामाध्रुवमेष्यति जानकी नदीम् सन्ध्यार्थे वरवर्णिनी तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा शुभायाः पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता यदि जीवति सा देवी आगमिष्यते सा अवश्यमिमाम् शीतजलाम् नदीम् एवम् तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नी अवेक्षमाणश्च ददर्श सर्वम् सुपुष्पिते पर्णघने विलीनः इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे चतुर्दशः